द्रष्टुकामास्सभां चैव धर्मराजं युधिष्ठिरं न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत् कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात् यज्ञमित्यैव राजानः स्पर्धमानादुर्धनम् भवनैः स लोकराजविमानैश्च ब्रह्मणावसथैः सह कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्सथा विचित्रैरत्नवद्भिश्च रद्ध्या परमया युतैः राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः अशोभत सदो राजन् कौन्तेयस्य महात्मनः विध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः षडद्विनाथयज्ञेन सोऽयजद्दक्षिणावता सर्वान् जनान् सर्वकामैः समृद्धैः समतर्पयत् अन्नवान् बहुभक्ष्यश्च रत्नोपहारसम्पन्नो बभूव समागमः इडाज्जहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः तस्मिन् हि तत्र पुर्देवास्तते यज्ञे महर्षिभिः यथा देवास्त विप्रा दक्षिणा न महाधन तत्रवर्णश्च तस्म यज्ञ इति श्री महाभारते सभा सभापर्व राजनीण ये पंच